ebra कहविश परमामृतसान्द्राय शीतलाय शिवार्नये कस्मै चित् विश्वसं vishmaya namo मै च म्र मूतये समस्त लक्षणायो संसारूपा निसंसाराय शम्भवे मलाय मध्याय नमः पूर्णायशं हरे मा अमश्चित्राय शम्भवे ब्रह्मेन्द्रविष्णु निर्व्यूढ जगत्संहा नमस्ते सर्वशक्ये मङ्गलाय पवित्राय निधये भूषणा तमः सततबधाय नित्यनिर्मुक्तिभागिन बन्धमोक्षविः नाय कस्मै चिदपि दक्षिणाचार सावाचार परमामृत कोषाय परमामृतराशय सर्व परम्य परम्य प्राप्याय भवते शङ्काशन सर्वालक्ष्मी का